मुद्गलपुराणं खण्डं फैव् लम्बोदरचरितम् अध्यायं ट्वेन्टि एय्ट् दूर्वापत्रस्पर्शमहिमावर्णनम् श्रीगणेशाय नमः मुद्गल उवाच अत्र ते वर्णयिष्येऽहमितिहासं पुरातनम् दूर्वायामहिमा यत्र ज्ञायते मानवैः परः दण्डकारण्यदेशस्थो बभूवान्द्यजः पुमान् पिशुनो नाम दुर्बुद्धिपापकर्मपरायणः शौरकर्मा वने गत्वा जनाञ्जखानदारुणः क्वचित् परस्त्रियं दृष्ट्वैकाकिनीमयभत्खलः शिश्नोदरपरो भूत्वा विचचारवनादरे ग्रामे च नगरे वापि शस्त्रधारी दुरात्मवान् ब्रह्महत्यादिकं पापमपारं स चकारः न वक्तुं शक्यते मया तस्य चरित्रकम् एकदा वनसंस्थोयं द्विजं दृष्ट्वा महाकलः कोढरात्सविनिस्मृत्या धावच्छस्त्रधरस्वयं तमागतं समालोक्य कालं दण्डधरं यथा पपालसद्विजस्तस्मात् आहाकारकरो भृशं द्विजशब्दं समाकर्ण्यक्षत्रिया आगदावनादैवयोगेन पञ्चैव समीपे मार्गयायिनः तैः शस्त्रैः सह दः पापी ब्राह्मणो हर्षसंयुक्तस्वाश्रमं चागदो भवद तदोयामाः प्रगृह्यैव पिशुनं तं महाकलं रौरवेते विनिक्षिप्य नरके पाचयंस्तदा पञ्चमे दिवसे प्राप्ते तत्राश्चर्यं बभूव वै यादनावर्जिदो यादनावर्जितो भवद तं परमाश्चर्यं यमदूदा यमं ययुः वृत्तान्तं कथयामासुर् नरकस्य सुशान्दिदम् तच्छ्रुत्वा विस्मितो धर्मो ध्यानसंस्तो बभूवः ज्ञात्वा तान् कथयामास स्मृत्वा लम्बोदरं प्रभुः धर्मराज उवाच पिशुनोऽयं महापापी चाण्डालो नात्र संशयः न योग्यो नरके दूदा अधुना पुण्यवानभूत् यत्रा मृतस्तत्र गाणपत्यः समागतः तस्य मस्तकगाद्दूर्वा पपाद पिशुनोपरि यस्य स्पर्शो भवेद्दूता अस्तिकस्य शवस्य वा तस्य पापं लयं सर्वं गमिष्यदि न संशयः पुण्यराशिर्भवेत्सोऽपि सर्वमान्यो विशेषतः अदयेन तु निष्कास्या नयन्तु मम सन्निधौ यमस्य वचनम् श्रुत्वा विस्मितास्ते समाययुः निष्कासितुं समुद्युक्तास्तावच्चित्रम् बभूवः गणेशदूदसंयुक्तम् विमानं नेदुमाययौ तम् गृह्य गाणपत्यास्ते ययुस्वानन्दकम् पुरम् पिशुनम् ब्रह्मपूतं ते चक्रुर्हर्षसमन्विताः पूर्वदेहस्य दूर्वाया स्पर्शे भक्तिपरायणाः धर्मादिविस्मिदो भूत्वा तान् जगादस्वसेवकान् अहो पश्यदूदेशा दूर्वामाहात्म्यमुत्कटम् धन्योऽयं पिशुनोपापि यस्य देहे समागता दूर्वायया विशेषेण योगिनां पदगो भवत महिमानं तु दूर्वाह्या को जानादि समग्रकं शवस्पर्शेन दुदेशा ब्रह्मभूतपदप्रदम् कानुक्त्वा साश्रुनेत्रः स बभूवरविनन्दनः गणेशं मन्यते नित्यं भजते भक्तिसंयुध इदं दूर्वा भवं चित्रं माहात्म्यं यः शृणोति चेद पठति तस्य विघ्नेशो वाञ्छिदम् ददस्ते सदा ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे पञ्चमे खण्डे लम्बोदरचरिते दूर्वा पत्रस्पर्श महिमा वर्णनं नामाष्टा विंशतितमोऽध्यायः Om oh.